कस्त्वा सत्यो मदानां मं हिष्ठो मत्थसदान्धस आ दृह्हाचिदारु ये वसू मदानां मं हिष्ठो मत्थसदान्धस आः दृहाचिदारु ये त्यो मदानां मं हिष्ठो मत्थस दन्धस